षष्ठकाण्डे पञ्चमः प्रश्नः प्रारम्भः भेत्स प्रवीन्मा मे प्रहारस्य वा इदं मयि वीर्यं दत्ते प्रदास्यामि इति तस्माक्ष्यं प्रायच्छत्तस्मै इति यमुदयच्छत्स अप्रवीन्मा मे प्रहारस्य वा इदं मयि वीर्यं दत्ते प्रदास्यामिति तस्माक्ष्यमेव प्रायच्छत्तस्मै तृतीयमुदयच्छत्रमिष्णुरन्म तिष्ठदजिहीरि स प्रवीन्मा मे प्रहारस्य वा इदं मयि वीर्यं दत्त ेवस्मा प्रायच्छा इृहत्वयित्वा विष्णुवे विष्णुरन्वच्छन् निर्गृह्णादि गृह्णा ऋ चक्षर्वा एतत् यज्ञस्य रुक्षस्तस्मादृक्षो हृतगो ङ्करासलोहविधाने तिष्ठन्न वनयेत् यजमानमेव यज्ञे शसेना कामयेत् तस्यान् यज्ञे शसेनालव्यावनयेत् स तस्यामेव यज्ञे शसेनार्पयति आयुर्वा एतद्यज्ञस्य यद्ध्रमोत्तमो ग्रहाणाङ्गृह्यते तस्मादायुः प्राणानामुत्तमम् मोर्थाणं दिवो हृदि ध्रुवस्तस्मादशुराण्याष्ठन्त्यमापुंसेनादिवेशन्तान् देवा ध्रुवेणा ध्रुवं हन्त ध्रुवस्य ध्रुवत्रयं यद्ध्रुव उत्तरतः आत्माहोद्धो धृजमसे ध्रुवमवनयत्यात्मन्येव यज्ञस्यायत् तथा पुरस्तादुःखस्या मध्यायिषो भुङ्क्ते मध्यता भणि यैत्याहन्मध्यमे नह्यायिषो भुङ्क्तमुत्तरार्थे भनी यैत्याहनुत्तमे नह्यायुषो भुङ् वै ईश्वदेव्या मतिशस्यमानायामनयते वैश्वदेव्या वै क्रिया ते देवास्वर्गं लोकमायन्ते प्राजानुक्रहार्गस्य लोकस्य प्रज्ञान्ते द्वादश मासाः संवत्सरस्य प्रज्ञामौ गृह्ये ते सहोत्तमौ तस्मात् ेवणात्पदेवन् एव प्रेणात् प्रेष्ये धिषट् कृत्वा हत्युभिरस्मात् चतुष्पादः पशुवर्जुनादः पशोनपजीवन् प्रेष्य षट् कृत्वा हत्युभिर्तुः पुनर्णेष्ठीनान्य क्षिणेन प्रपद्यते प्रसिद्धम् सुवर्गाय वा एते लोकाय गृह्यन्ते दुर्दग्रहा ज्योतिन्द्रा इन्द्राग्नपात्रेण गृह्णाति ज्योतिरेवास्मा उपरिष्टा सुन्द्राज्ञीन्द्राग्नो गृह्यत ओज एवावृन्धे वैश्वदेवगो शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजा असावादित्यशुक्रो यद्वैश्वदेवगो शुक्रपात्रेण गृह्णाति तस्मादसावादित्य सर्वा प्रजा सर्व एव मन्यदेमाम् प्रत्यदि वैश्वदेव गोशुक्रपात्रेण गृह्णादि वैश्वदेव्यो इन्द्रो मरुसां यद्य न माध्यञ्जने सवने वृत्तमन्माध्यञ्जने सवने वरत्वदीयाघ्ना एव ते कृष्णन्ते तस्य वृत्तं जिघ्दपि सर्दोन् राजानाद्यपात्रेण मरत्पदीया कृष्यन्दूनां जृम्बा एतं यजमानो प्रादुर्याय प्रहन्मरीया उदेव प्रथमेण यच्छति एतद्यमानस्यस्मृते यन्मद्वितीया धनुरेव प्रथमोषस्तृतीय प्रत्येव प्रथमेन्द्रहत्वात्मस्मरणावश्येत प्राणमेव प्रथमेनात्मान् द्वितीयेनात्मान् तृतीयेनात्मस्मरणा वा एतेन ेन्द्रो वृक्रमहन्ते हेन्द्रस्य महेन्द्रकोश हेमा हेन्द्रमत्थावत्रेन्द्रोद्धनोद्धरतेऽन्यास प्रजाश्वत्रेण गृह्णादि यजमानदेवत्यो भीमा हेन्द्रस्यैज शुक्रायन्मा हेन्द्रको शुप्रभात्रेण गृह्णादीजमान एव तेजो दधादि अदिः पुत्रका माता देवेभ्य ब्रह्मो धनमगत्यस्या उच्छेषणमदस्तप्राश्नात्सारेदो धत्तरस्य आदित्याच्छादिष्यामिन्दो ज्ञे व्यर्थमाण्डमजाय तथा ो जायाता अस्माकेको दृत्योद्य प्रजायाता अस्माकं भोगाय भवादितोनादित्यां वृजाय देवानां भोगाय भवति देवा वैमन्तरायन् ेवदन्धनं वशभो वा एतेशूनाम् श्रुता न मेध्यत्वा यतस्मादामा वक्वन्द हे पशुवो वा एते यदा न्दषकप्रत्यन्य स्याद्य चरमवृषको न साधयति सन्नाथे प्रजाः प्रजायन्ते यदनुषट् यामपात्रेण सा वित्रमा आग्रेणा गृह्णाति प्रजा पृथर्वा एषेदा आग्रेण प्रजाना प्रजननाज्ञनसादयत्रं प्रजा देशवैकायत्रो देवानां यत्सविदेशगायत्मिके गृह्यतेण सा वित्रमा आक्रेणा गृह्णाति स्वा देवैर्गृह्णाति विश्वेकोसव ेण वैश्वदेवं कलशात् गृह्णादिता प्रसमानामीशेत् समितृपात्रेण वैश्वदेवं कलशासोद एवात्मै प्रजा प्रजनयमभिगृह्णाति सुशर्मा सुप्रतिष्ठान भि गृह्णादिप्रतिष्ठित्या एतस्मिर्वा अभिग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यै सुमादिप्रतिष्ठानैत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याः देवेभ्य एवैतेन करोति न इत्याह पितृभ्य एवैतेन करोत्येता देवतास्ताभ्य एवै नमो सर्वाभ्यो वा एष इदु पाकुंशुर् युदुपांशुपात्रेण प्रथमश्च ग्रहो दृश्येते प्राणमेवानुप्रजन्त्य प्राणमनोच्यन्ते प्रजापधर्वा एष इदाग्रयणः प्राण उपागुंशुः पत्नी प्रजा प्रजनयन्त्युपागंशु पात्रेण पात्नी प्रथमा गृह्णादिप्रजानाम् प्रजनना यतस्मात् प्राणम् प्रजानुप्रजायन्ते देवा वा इत इदः पत्नी स्वर्गल् ीत्या हेयं वा उपयामस्तस्मादिमान् प्रजा बृहस्पति बृहस्य वैद्याः ब्रह्मै देवानां बृहस्पृत् देवा देवा ब्रह्मणैवास्मि प्रजा प्रवेदीन्द्रोद्या हरे गो वा इन्दुन्द्रिया वैद्याः प्रजा वा इन्द्रियं प्रजा एवास्मि प्रजा य त्याहात्यर्वेदे हत्वष्णाैव शूनाम्निधनागोरूपमेव प्रतिप्रायच्छन्दस्मादध्यं प्रबन्धन्न प्रतिप्रदेषनुष अन्वृद्यन्नानुष ीं भक्षयेत् पादृश्यनवशत्तर दिनरुद्रं सजति शान्तम् यज्ञेणश्च रवस्तमासि दिनेपत्नी मुदानयेत्याहाने दिने यामद्वात्रा सङ्ख्यापि प्रजापतिर्वा एषेनायाप उपप्रवर्तयति प्रजायन्ते वृक्रमहन्तस्य दीर्षकपालमदो यत्सत्राणि कलशा भवत्तस्मात् स्वामश्रमस्रवत्सहायजिगत्सज्जहवानी मा हौषा मन्यष्याम्यज्ञमे शतं करिष्यामीत प्रवीण् श्रीनातिशतत्वाय शतमेवैनं भोदञभिः श्रीनात्येतावतिरेवास्यामका मधुधा भवन्त्यथो खल्वाहुरेतावा इन्द्रस्य कामो जने िणी या दृक्षामे वा इन्द्रस्य हरे समपानो हन्तराहत्य विक्रम्यजेन्द्रे पशव भुञ्जन्त उपदिष्टे ऋणयन्नतम् भिञ्जात् तथव एनम् पशव भुञ्जन्त उपदिष्टे रण् एवेनम् अशव भुञ्जन्त उपतिष्ठन्तम् नेतर्युपहगमिच्छन्दे एव तत्र सामपीठस्तमेवावलन्धत उत्तरवेत्या अशव हारयो जने पशुष्वेव पशून् प्रतिष्ठापयन्ति जापशव प्रजा इन्दौ वाशूनां एषा गृह्णीया पुत्रं शतौ पति तादृत्य ृम्नि याद्यथा पुत्रः पितरं क्षितृह्मन एवाधिष्करोत्य वा येन ब्रह्मन्ति तस्मात् स्त्रियञ्जाताम् स्य आहृति तादृगेवस्य स आहृत्यप्राह तादृगे यत् साधयदयधावस्य उपरथा याप्रक्राम तादृगेव यत् नै यज्ञस्य जागर्गणम् प्रष्टयामायुषाकृत्यन्दुप्रदिष्टार्पयामारुचा यज्ञस्य धृत्ये ान्यानि पात्राणि युज्यन् देनान्यानि यानिपि प्राचीनानि प्रयुज्यन्ते मे दये लोकमभिजेयति पराङ्गयुज्यन्ते लोकमभिजयति पुनः पुनरिवक्यन् लोकप्राण्यानि पात्राणि युज्यन् देनान्यानि यानिपि प्राचीनानि प्रयुज्यन् देतान्यषधयः परा भवन्ति यानि पुनः प्रयुज्यन्तेषधयन्ति पात्राणि युज्यन् देनान्यानि यानि प्राचीनानि प्रयुज्यन्ते यच्छन् देतान्यवान् भवत्याख्यमित्युक्तं तद्वै ग्रहाणान् सौन्दर्याम योर्यैस्तरेषाम् ग्रहाणामेतद्वै ग्रहाणान् निदानीम् एवम् वेदनिदानवान् भवति यो वै ग्रहाणाम् निधनम् वेदप्रज्ञया पशुभिन्न्यसने ज्ञायते स्थालेऽभिरन्ये ग्रहा वायव्यैरन्य एतद्वैग्रहाणां निधनय एवं वेद प्रजया पशुभिर्मधने इन्द्रस्वश्च स्वामीषः विश्वपश्यतान्यत्मनारमणमकुरु प्रौढाशा निरुप्यन्ते तस्मादनुसवनं राष्ट्रीयाधात्मन्येवारमणं कुरु तेनैन गो स्वामादिपवदे ब्रह्मवादिना वदन्ति न्यानयुशान्तिरा त्वस्याप्यदे षष्ठकाण्डे पञ्चमः प्रश् समाप्तः